हिरण्यगर्भः शुक्तं श्रीगुरुभ्यो नमः हरिः ओ हिरण्यगर्भसमुरतताग्रे भूतस्य जातपतिरेक आसीत् सदा आधारप्रथमं जामुते मां कस्मै देवाय हविषा आ विधेम य आमदा बलदा यसे विश्व उपासते छाया प्रतिशम येवा ययाम युकृेम यस तो जगतो बभूव य ईशे ए अस्य जपदश्चतुष्पदः कस्मै एदेवाय विषा आविधेम यस्ये मे हिमवन्तो महित्वा यस्य समुद्रं रसया आशहाहुः यस्ये मा प्रदिशो यस्य बाहू कस्मै ए देवाय विशा आविधेम येन ज्यौरुग्रा पृथिवी यो दुर्ग्येन रजसो विमानकस्मै देवाय हविषा आविधेम यं क्रन्दसि अवसातस्तभाे अभ्यक्षेन्ता छे एतां मनसारेजमाणि यत्राधिसूर उदितो विभाति कस्मै एदेवाय विषा आविधेम आपो ओ ह यद्बृहतिर्विश्वमायन् गर्भं दधा आ न जनयन्तिरग्निं ततो देवानां संवर्ततासुरेकः कस्मै ए देवाय विषा आविधेम यश्चिद्दापो ओ महिना पर्यपश्यत दक्षं दधा आ न जनयन्तिर्यज्ञं यो देवेष्वधि देव एक आसीत् कस्मै हि देवाय आविधेम मानो ओ हिंसि जनिताय पृथिव्यायो वा दिवं सत्यद माजान जा यश्चापश्चन्द्रा बृहतिर्यजानकस्मै इ देवाय हविषा आविधेवा प्रजा आपतेन त्वदेतान्यो विश्वा आ जातानि परिता बभूव यत्का आं मास्तेजुहुमस्तन्नो ओ अस्तु वयं स्या आं मा पतयोरयीणाम् ॐ शान्ते शान्ते शान्ति हरिः ॐ सङ्गच्छध्वं संवदध्वं संभो मनांसि जानतां भागं यथा पूर्वे संजानानां सञ्जानामुपासते समानो मन्त्रसमिति समानि समानं मनः सचित्तमे समानं मन्त्रमभिमय अन्त्र एव समाने नवो हविषा आद्युहोमि समानीव आकूऊति समानाहृदयानिव समानमस्तु वो मनो यथा आह्व सुसहासती ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः चुन्वन्ति दिव्यैस्तवै वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं श्यामगा ध्यानावस्थितद्गतै न मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुषुरासुरगणाद्यवाय तस्मै नमः ॐ शान्ति शान्ति शान्तिः हरिः ॐ भाग्यसुक्तम् ॐ प्रातरग्निं प्रातरिन्द्रगं भवामहे प्रातमित्रावरुणा प्रातरिष्वाहा प्रातर्भगं पूषणं ब्रह्मणस्पति प्रातः सोमाम्बुत रुद्रगं भुवेम प्रातर्जितं भगमग्रगं भुवेम वयं पुत्रमदीतेर्यो विध विधर्ताम् आदच्चिन्त्यं मन्यमानस्तुरश्चिन्द्राजा चेद्यं भगं भक्षित्याह भगप्रणेतर्भगसत्यराधो भगे मां धियमुदवन्ददन्नः भगप्रणो जनय गोभिरस्वैभगप्रणेभिर्निवन्तः स्याम उतेदानीं भगवन्तस्यामोत प्रपीत्य उत मध्ये आण्वा आम उतोदिता मघवन् सूर्यस्य वयं देवानागं सुमतौ स्याम भग एव देवास्तेन वयम् भगवन्तरस्यामं तं त्वा भग सर्वज्ञोह वीमीसनो भग पुर एता भवेह समध्वरायोष यो नमन्त दधि सुचये पदाय अर्वाचीनं वसुविदम्बगन्नो दशमिवा स्वाजीन आवहन्तो अश्वापतिर्गोमतीन उषासो वीरवति सदमुच्छन्तु भद्राः घृतं दुहानाविश्वत प्रपीणायुतं पात स्वस्तिभेस्तदानं यो मा आग्ने माघिर्नगं सन्तमथा भागं चिकीर्सिति उभागमग्ने तं कुरु मामग्ने भागिनं कुरु शान्तिः शान्तिः शान्तिः हरिः ॐ तस्सत् श्रीरामकृष्णार्पणमस्तु